द्वि सप्तत्यधिक शत तमोऽध्यायः गन्धर्वौ उवाच एवमुक्त्वा ततस्तूर्णम् जगामूर्ध्वमनिन्दिता स तु पुनर्भूमौ तत्रैव निपपातः अन्वेषमाणः सबलस्तम् राजानम् रूपोत्तमम् अमात्यः सानुयात्रश्च काले शक्रध्वजमिवोच्छ्रितम् तम् हि दृष्ट्वा महे श्वासम् निरस्तम् भुवि बभूवसोऽस्य सचिवः स्वरया चोपसङ्गम्य स्नेहादागत सम्भ्रमः तम् समुत्थापयामासन् भूतलाद् भूमिपालेशम् पितेव पतितम् प्रज्ञया वयसा वृद्धः कीर्त्यानयेन च समुत्थाप्य बभूव विगत च्वरः कल्याण्या वाचा मधुरयोत्थितम् मा भैर्मनुजशार्दूल भद्रमस्तुत वा नघ पतितम् पातनम् सङ्ख्ये शात्रवाणाम् महीतले वारिणा च सुशीतेन शिरस्तस्याभ्यसेचयत् अस्फुटन् मुकुटम् राज्ञः पुण्डरीक सुगन्धिना ततः प्रत्यागत प्राणस्तद्बलम् बलवान् नृपः सर्वम् विसर्जयामास तमेकम् ततस्तस्य ज्ञाया राज्ञो विप्रतस्थे महद्बलम् स तस्मिन् पुनरुपाविशत् ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः आरि राधयिषुः सूर्यम् तस्थावूर्ध्वमुखक्षितौ जगाम मनसा चैव वसिष्ठम् ऋषि सत्तमम् पुरोहितममित्रघ्नस्तदा सम्वरणो नृपः अथा जगाम विप्रर्षिस्तदा भावितात्मा महान् ऋषिः तथा तु नियतात्मानम् आबभाषे स धर्मात्मा तस्यैवार्धचिकीर्षया स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः ऊर्ध्वमाचक्रमे द्रष्टुम् भास्करम् भास्करद्युतिः सहस्रांशुन्ततो विप्रः कृताञ्जलिरुपस्थितः वसिष्ठोऽहमिति प्रीत्या स चात्मानम् न्यवेदयत् वसिष्ठौ भूतात्मने गोपतये वृषाय सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय विवस्वते ज्ञानभृदन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे स्वयम्भुवे दीप्त सहस्र चक्षुषे सुरोत्तमायामित तेजसे नमः नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूति हेतवे त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्च नारायण शङ्करात्मने तमुवाच महातेजा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 स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारथी युक्तः संवरणो भर्ता दुहितुस्ते विहंगम इत्युक्तस स तदा तेन ददानीत्येव निश्चितः प्रत्यभाषत तम् विप्रम् प्रति नन्द्य राज्ञाम् त्वम् ऋषीणाम् वरो तपती योषिता श्रेष्ठा किमन्यदपवर्जनात् ततः सर्वानवद्याङ्गी तपतीम् तपनः स्वयम् ददौ संवरणस्यार्थेऽवसिष्ठाय महात्मने प्रतिजग्राहताम् कन्याम् महर्षिस्तपतीम् तदा वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगामः यत्र विख्यातकीर्तिः स कुरूणाम् ऋषभोऽभवत् स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना दृष्ट्वा चदेव कन्याम् वसिष्ठेन सहायन्तीम् संहृष्टोऽभ्यधिकम् बभौ रुरुचे साधिकम् सुभ्रूरापतन्ती न भस्तलात् सौदामिनीव कृच्छ्राद्वादश द्वादशरात्रे तु तस्य राज्ञः समाहिते आजगामपि वसिष्ठो भगवान् ऋषिः तपसाराध्यवरदम् देवम् गोपतिमीश्वरम् लेभे संवरणो भार्याम् वसिष्ठस्यैव तेजसा